हरि श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे षडधिकशतमः सर्गः श्रीरामं प्रति भूयो भरतस्य अयोध्या गमनाय राज्य ग्रहणाय च प्रार्थना एवम् उक्त्वा तु विरते रामे वचनमर्थवेत् ततो मन्दाकिनीतिरे रामं प्रकृतिवत्सलम् वाच भरतश्चित्रम् धार्मिको धार्मिकं वचहे कोइत्यादि दृशो लोके यादृश तम्मरीन्नमः न त्वां प्रव्यथयेत् दुःखं प्रीतिर्वा न प्रहयेत् सम्मतये चापि वृद्धानां ताश्च पृच्छसि संशयान् यथा मृतः तथा जीवन् यथा तथा य सती बुद्धि लाभ सै परिताप्यव स न्छीद अमरूपमस महात्मा सत्य संग्रह सर्व्ञ सर्वी बुद्धिमान् चाशीराघवे न त्वामेवं गुणर्युक्तम् प्रभव भव कोविधम् अविषह्यतमम् आस्वादयितुमर्हति प्रोषिते मयि यत् पापम् मात्रा मत्कारणात्कृतम् क्षुद्र्य तदनिष्टं मे प्रसीदय तु भवान् मम धर्मबन्धेन बद्धोऽस्मि तेनेमाम्नेह मातरम् हन्मी तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् कथं तजरथा जात शुभाभिजनकर्मणः जानन् धर्मम् धर्मं च कुर्यां कर्म जुगुप्सितं गुरुक्रिया वान्वृद्ध च राजा प्रेत पितेति पिते च तातं न दैवतं चेति संसदि को हि ही धर्मार्थयो हीनम् ईदृशम् कर्म किल्बिषम् श्रियप्रियचिघेषु सन् कोया धर्मज्ञधर्मवीत् अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः अन्येवम् कुर्वता लोके प्रत्यक्षा सः श्रुतीकृता क्रोधान्वोहा च सहस त यदतिक्रान्तम् पश्च तद्भवान् पितुर्हि समतिक्रान्तम् पुत्रो यः साधु मन्यते तदपत्यं मतं लोके विपरीतम् मतोऽन्यथा तदपत्यम् भवानस्तु मा भवान् दुष्कृतं पितुः अति यत्तत् कृतं कर्म दोके धीर कैकै ोकेगर्म कैकय सुहृदो बांधवाचन सौरजान पदा सर्वाद क्वारण्यं क्व जाग्र्त्र क्वट क्वाल ईदृशम कर्म न भा कर् प्रथम धर्म क्षत्रियस्य अभिषेचनम् येन शक्यम् अपराज्ञ प्रजानां परिपालनम् कश्च प्रत्यक्षमुत्सृज्य संशय स्थलम् लक्षणम् आयतिस्थं चरे धर्मम् क्षेत्रबन्धु अनिश्चितम् अथ क्लेशजमेव तम् धर्मं चरितुमिच्छसि धर्मेण चतुर्वर्णन् पालयन् केशमाप्नुहि चतुर्णामाश्रमाणां हि गार्हस्थ्यम् श्रेष्ठमुत्तमम् आहोर्धर्मज्ञा तम् कथम् त्यक्तुमिच्छसि श्रुतेन बालस्थानेन जन्मना भवतो ह्ययम् स कथम् पालयिष्यामि भूमिम् भवति तिष्ठति हीन गुणो बालो स्थानेन चाप्यहम् भवता च विना भूतु न वर्तयितुमुत्सहे इदम् निखिलम् अप्यग्र्यम् राजं पित्रम् अकण्टकम् अनुषाधि स्वधर्मेण धर्मज्ञा सह बान्धवै इहैव एत्वाभिषिञ्चन्तु सर्वा प्रकृतयसः ऋत्विज मन्त्रविन् मन्त्रकोविदाः अभिषिक्तः त्वमस्माभिः अयोध्याम् पालने व्रज विजित्य तर्ता लोकान् मरुद्भिव वासवः ऋणानि त्रीण्यपू त्रीणिपाकुर्वन् दुर्हृदय साधु अद्यादिता सू सुषेच अद्य पल दुषाद से आक्रोशं मतुष्छ प्रमुज्य पुरीज शे अद्रवन च पीतर रिषा शरताचे हम कूणा मयि बान्धवेषु च सर्वेषु भूतेष्वेव महेश्वरे अथवा पृष्ठदे कृत्वा वनमेव भवानितः गमिष्यति गमिष्यामि भवता सार्धमप्यहम् तथा भवते न तम्यता प्रसाद्यमान शिरसा महीपति न चैव चक्रे गमनाय सत्ववान् मतिम् पितु तद्वचने प्रतिष्ठिते तदद्भुतं थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखित न याति योध्यामिति दुःखितो भवेत् स्थिरप्रतिज्ञात्वमवेक्ष्य हर्षित तन्नृत्वे यो नैकमयूथ वल्लभा तथा विसन्याश्रुकलाश मातरे तथा भ्रुवाणं भक्तं प्रदृष्टुः प्रणम्य रामं च ययाचिरितः इत्याचै श्रीमद् श्ड़ रामायणे वाल्मीकि आदि काव्य विद्याकाण्डे षडधिकशतमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु